गणेशपुराणं क्रीडाखण्डम् अध्ययं 146 अण्ड् फोर्टि अनन्य वरेण्य उवाच अनन्यभावम्यङ् मदिमन्तमुपासदे योऽक्षरं परमं व्यक्तं तयोः कस्ते मदोधिकः असित्वं त्वं सर्ववित् साक्षी ूतभवन ईश्वर अतस्ता पीपा वद वदमे कृपया विभो श्रीगजानन उवाच यो मूर्तिधरम भक्या मरीसुज्य हृदय मयि खगणं स्ववशं कृत्वा किलभूत हितार्थकृत मध्येयमक्षराव्यक्तं सर्वगं कूडगं स्थिरं सोऽपि मामेत्य निर्देश्य उपासते संसारसागरादस्मादुद्धरामि तमप्यहम् अव्यक्तपासना दुःखमधिकं तेन लभ्यते व्यक्रस्योपासना साध्यं तदेवाव्यक्तभक्तः भक्तिश्चैव दरश्चात्रकारणं परमं मदं सर्वेषां विदुषां श्रेष्ठो ह्य किञ्चिज्ञोऽपि भजन विहीनो भक्रियानो यांडालोधय चांडा भजन भक्रिया ब्राह्मणे दिगो मम चुकाद्या सनकाद्यादा भक् भक्रिय माता नारदाद्याश्चिरायुषः अदो भक्र्या मयि मनो निधेहि बुद्धिमेव च भक्रिया यजस्व मां राजंस्तदो मामेव यास्यसि असमर्थोऽर्पितुं स्वान्तं ध्रुवं मयि अभ्यासेन च योगेन ततो गन्तुं यजस्व मां तत्रापि त्वमशक्तश्चेत् कुरु कर्ममदर्पणं ममानुग्रहतश्चैव परां निर्वृतिमेष्यसि अधैतदप्यनुष्ठातुं न तदा कुरु प्रयत्नदः फलत्यागं त्रिविधानां हि कर्मणां श्रयसि बुद्धिरावृत्तेस्तदोध्यानं वरं मदं तदोकिलपरित्यागस्तदः शान्तिर्गरीयसी निरसं ममदा बुद्धिरद्वेषकरुणः समः लाभालाभे सुखे दुखे मानामाने स मे प्रियः यं वीक्ष्य न भयं यादिजनस्तस्मान्न उद्वेगभी कोपमद्भिरहितो यः स मे प्रियः रिपौ मित्रेध गर्ह्यायां स्तुतौ शोके समः समुद मौनिश्चलधि भक्तिरसङ्गः स च मे प्रियः संशीलयदि यश्चैनमुपदेशं मया कृतं स अनिष्ठाप्तौ च न द्वेष्टिष्टप्राप्तौ न चतुष्यति क्षेत्रतज्ज्ञौ च यो वेत्ति समे प्रियतरो भवेद् वरेण्य उवाच किं क्षेत्रं कश्च तद्वेत्ति किं तज्ज्ञानं गजानन चक्ष्वमह्यं त्वं पृच्छदे करुणाम्बुधे श्रीगजानन उवाच पञ्चभूतानि तन्मात्राः पञ्चकर्मेन्द्रियाणि च अहंकारो मनो बुद्धिः पञ्चज्ञानेन्द्रियाणि च इच्छाव्यक्तं धृति द्वेषौ सुखदुःखे चेतना सहितश्चायम् समूहः क्षेत्रमुच्यते तज्ञम् त्वम् विद्धि माम्भूप सर्वान्तर्यामिणम् विभुम् अयम् समूहोऽहं चापि यज्ञानविषयौ नृप आर्जवम् गुरुशुश्रूषा विरक्तिश्चेन्द्रियार्थतः शौचं जन्मादि जन्मादिदोषवीक्षणं समदृष्टिर्दृढा भक्तिरेकान्तित्वं क्षमोदमः येदाैर्यच्च युधं ज्ञानं तज्ज्ञानं विद्धि बाहुज तज्ज्ञानविषयं राजन् शृणुष्व मे यज्ञात्वयिदि च निर्वाणं मुक्त्वा संसृतिसागरं यदनादीन्द्रियैर्हीनं गुणभुग्गुणवर्जितम् अव्यक्तं सदसद्भिन्नमिन्द्रियार्थावभासकं विश्वभृच्चाखिलव्यापि एकं नानेव भासते बाह्याभ्यन्तरतः पूर्णमसङ्गं तमसः परं दुर्ज्ञेयं चादिसूक्ष्मत्वाद्दीप्तीनामपि भासकं ज्ञेयमेदादृशं विद्धिज्ञानगम्यं पुरातनं यदेव परं ब्रह्म ज्ञेयमात्मा परो व्ययः गुणान् प्रकृदि प्रकृतिजान्भुङ्क्ते पुरुषप्रकृतेः परः गुणास्तृभिरियं देहे बध्नादिपुरुषं दृढं यदा प्रकाशः क्षान्तिश्च विद्धि स त्वं तदाधिकं लोभो शमस्पृहारम्भःकर्मणां रजसो गुणः मोहो प्रवृत्तिश्चाज्ञानं प्रमादस्तमसो गुणाः सत्त्वाधिकस् सुखं ज्ञानं कर्मसङ्गो रजोऽधिकः तमोऽधिकश्च लभते निद्रालह्यं सुखे तरद प्रवृद्धेषु मुक्ति संसृति दुर्गतिः प्रयान्तिमानवाराजंस्तस्मात् सत्त्वयुतो भव ततश्च सर्वभाव्येन भज त्व मां नरेश्वरा सर्वत्रैव च संस्थितम् अग्नौ सूर्ये तथा सोमे यच्च तारासु संस्थितं विदुषी ब्राह्मणे तेजेविद्धि तन्मामतं नृप अहमेवाखिलं विश्वं सृजामि विसृजामि च ओषधीस्तेजसा सर्वं विश्वं चाप्याययाम्यहम् सर्वेन्द्रियाण्यधिष्ठाय जाठरं च धनञ्जयं भुनत्मिक् चाखिलान् भोगान् पुण्यपापाविवर्जितः अहं विष्णुश्च रुद्रश्च ब्रह्मा गौरी गुणेश्वरः इन्द्राद्यालोकपालाश्च ममैवांशसमुद्भवाः येन येन हि रूपेण जनो मां पर्युपासते तथा तथा दर्शयामि तस्मै रूपं सुभक्तितः यदि क्षेत्रं तथा ज्ञादाज्ञानं अखिलं भूपदे सम्यगुपपन्नाय पृच्छते ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीमदादिक्षेत्रक्षेत्रज्ञविवेकयोगो नवमोऽध्यायः ओ